न वित्तमिन्द्रविदक्रतो पूर्ण आहावो मिलस्य मद्धोऽयम् विश्वजितविहर्यन्ति देवाः जित्वामिन्द्रमुधा जनाः सोहितप्रजसो विषभक्वजन्ते अस्माकम् ते मधुमत्तमा नीमा भूभन्सवनातेषु हर्य रत इन्द्रभूर्यानि प्रमूलम् वीर्या भोजम् प्रथमालानि सदीनमन्युरस्रथायो अद्र्यम् सुवेदनाम गुणोर्ब्रह्मणेवागणपते गणेश त्वामागर्वे प्रथमम् कवीना ृते त्वत्क्रियते किञ्च महाभत्कम् चित्तमच्च अभिख्यानो सके मानान्सके भोजिवसुपते सखीनाम् रणम् कृषिरणगच्छा भक्ते चिता भजाराजे अस्मान् सज्जा वा पृथिवी सचेतसा विश्वेर्देवैरनुसुष्म मावताम् यथैत्रिम् वा नो महिमानमिन्द्रियम् वीद्वी सोमस्य क्रतुमामवर्धत तमस्य विकर्म इमानमोजसाम् सुन्दरधन्वान् मधुनो विरप्सते देवेभिरिन्द्रो मघवासयाभितम् जघन्वान् अभवद्वरेण ऋत्रेण यदयीनाभिूधा समस्थीतायुधये संसमाविदे इष्येते अत्र मरुतः सहात्मनावद्धन् अग्रम इमानमिन्द्रियाम् ज्ञानयेव व्यबाधतस्पृह प्रापः सद् धीरो अभिमोस्यम्रणम् अवृश्चलद्रिमव सस्यदसृजदस्तभ्रान्नागम् स्वपस्य या पृथम् आदिन्द्रः सत्यादवीक्षीरपत्यदवरीयो जावा पृथिवी अबाधत अपाभरद्रुषितो वज्रमायसंसेवम् मित्रायवरुनाय दासुषे इन्द्रस्यात्र तमीषेभ्यो विरप्सिरृगायतो आरम्भयन्तमन्य वृत्रम् यदुग्लाविवृश्च सापो बिभ्रातम् तमा सा परीवृतम् या वे। वीर्याणि प्रथमानि कत्वा महित्ते भर्यतामानौ समीयतोः ्रमो मध्वसे हत इन्द्रो वह्ना पूर्वभूतावपत्यत विश्वे देवासो रथवृष्ण्यानि देवध्वजम् सोमावत्यावधस्य या रद्धम् रद्धमहिमिन्द्रस्य वन्मानाग्निर्नयम् भैः स्पृष्टन्नामामयत् भूरिदक्षे भर्वचनेभिर्वक्वाभिः सख्येभिः सख्या रिप्रवोचत इन्द्रोऽधुनिम् चचुमूलिम् च दम्भयम् श्रद्धामनस्याीतये त्वम् पुरोऽन्याभराश्वस्याये भर्मम् शैर्निवचनादिशंसन्न सुगेभिर्विश्वा दुरितारेम विदोषुणार्भियागाधमद्य धर्मा समन्दात् त्रिवृधम् यापदस्तयोर्दुष्टिम् आदरिष्वा जगाम इदुरस्म ज्योतिधीराणाहवेरन् विदुर्देवाः सहसा मानमर्थम् ्रो देष्टाय निर्वितीरुपाः सते दीर्घश्रुतो दे विहि जानन्दिवह्नायः आसान्निज्ञः कवयोः निदानम् परेषु यागुह्येषु व्रतेषु चतुष्कपर्दायुपतिः सुपेशाः अस्याम् सुपर्णानुषिषेदुर्यत्र देवादधिरेभागधेयम् एकः स्वपर्णः स समुद्रमावीवेश इदम् विश्वम् भुवनम् वितष्टे नमम् वाके नमनशापश्य मन्दीतस्तम् मातारेभि समूरेभिमादरम् सुपर्णम् विप्राः कवयोवचोभिरेकम् सन्तम् बहुधा कल्पयन्ति छन्दांसि जलधतो अध्वरे सोमस्य मिमते द्वादस षट्सां सदनः कल्पयन्तश्चन्दाम्सि जदधत आद्वादसम् चतुर्दशान्येम हिमानो अस्य तम् धीरा वाचा प्रणयन्ति सप्त आप्नानन्तीर्थम् क इह प्रभो यद्येन पथा प्रबिबन्ते सुतस्य सहस्रथा सहस्रधामायमानः सहस्रम् यावद्ब्रह्मभिष्टि तम् तावति वान्दसाम् योगमावेः दधीरक्को दिह्याम् प्रतिवाचम् प्रवाद मृत्युजामष्टमम् दूरमा गुर्हीजिन्द्रस्य निचीकार्यकस्वीत् भूम्या अन्तम् पर्येके चलन्तिरथस्य सूर्ययुक्तासोः अस्तु श्रमस्य दायम् विभाजन्तेभ्यो यदा यमो भवति हर्म्ये हितः चित्रयच्छिषोस्तरो नस्य भक्षसो नयो मातरा भव्येति धातवे धा जनुपवक्ष सद्यो महीधूत्या हञ्चरन् अग्निर्हनामाधायिरन्नपस्तमसंयोमनाः युवते भस्मनादता हि प्रमुरा युक्वा स्वध्वरजिनो न प्रोथ मानो जपसेदृषाः तम् भोविन्न दृषतम् देवमन्थस इन्द्रम् मर् नवम् आसावन् भिन्नशोतिषा विरप्सिनम् महिम्रतम् न सरजन्तमध्वानः नियस्य चेद्रियसानस्याजरदक्षोताह्मधिकम् च्यूताः आरण्वासो यदग्निः कन्वतमः कन्व सखार्यः परस्यान्दरस्य तरुषः अग्निः पातु अग्निः सूरीरग्निर्दधातु तेषामो नः वाजिन्तमायसख्यसे सुमित्रिषु च वा नो अनुजातवेदसे अनुद्रे ज्योतिषतावरम् देवन् वने न विश्यते ये वाक्यर्मत्तैः सह सूर्यभर्वदृष्टभेदः सः सूनरो नृभीः निमित्रासो नजेषु धीतारिताय वोध्या वो नद्युम्नैरभिसन्धिमानुषान् ऊर्जो नवात्सहसा ं सोऽषाभद्वजा सुीराद्राभीरायुः प्रसरन् दधानाः इति त्वाग्नेगव्यस्य पुत्रावूपस्तुता सर्षजोऽवोचन् तांश्च पाहिले नतश्च सूरेन्वषड्वषित्योद्वासो अनक्षन्न मोनमलित्योद्वासो अनक्षन् ृत्राय हन्त वेदविष्टिगाये दवसे होजमानपिभमद्धिपदिन्द्रावृषस्व अस्य विपक्षुमधप्रस्थितस्येन्द्रसोमस्य परमासु तस्य स्वस्ति रामनासामादय स्वार्वाचीनो रेव सौभागाय ममत्तत्त्वा दिव्यः सोम इन्द्र ममद्वयः सूयते पार्थिवेषु मम द्वयेन परीवश्च कर्था मम निजिह्मानि भ्रासयन् रान्यवस्थिरा दानुविजा उद्ग्रायते स गो बलम् ददामि प्रतीत्य सत्रोन्विगदे रूभिश्च या अर्ययिन् ददमिस्रवांसोज स्थिरे वधन् ब नोऽ मातिः अस्मद्रग्वा वृधानः स इयम् हविर्माघवन्धुभ्यम् रातम् प्रीशम् राघेणा नोभाया तुभ्यम् सुतो माघवन्धुभ्यम् पक्वो ओद्धीद्रपिमजप्रस्थीतस्य अद्धीतिम् दप्रस्थिते मा हवीम् शिजनो स्वन्तः प्रतीहर्यामसित्वा सत्याः सन्तुयजास्य कामाः नेन्द्राग्निभ्याम् सुवचस्यामि यन्निसिन्धामि भग्रेरायम् नावभैः अया इव परितरन्ति देवाय अस्मभ्यम् धनता उद्भिदश्च ूदेवाः क्षुधमिद्वदम् दुरुदासीतमुपगच्छन्ति मृत्यवाः भूतो प्रेणतो नोपादस्य विन्दते प्रेण य आर्द्राय चकमानाय वित्तोन्न वातायोपजग्मुषेः स्थिरम् मनश्च कृते ो यो गृहवेदधात्यन्न कामाय च कृशाय अरामस्मै भवति यामाहूरा परीक्षो कृणते सखायम् न सखायो न ददादिषख्ये सचा भुवे स चमानाय स्मात्रेयान्नतलोको अस्ति समनोपस्ये सपन्था को युवर्तम् ते रथ्येव चक्रामन्यमुपादिष्टम् धरायाः न्नम् विन्दते अप्रजेता सत्यम् रवीमि मधयित्सदस्य नार्जमनम् पुष्यतिनो सखायम् केवलाघो भवति केवलादी कृषण्सीतम् के कृणोदि यन्नध्वानमपाभृन्ते चरित्रैः वदन् ब्रह्मावदतो मनीयान् प्रणन्नाविरपिनन्दमविष्यात् भूयोद्विपतोऽभि च क्रमे द्विपा त्रिपादमभ्येऽपि पश्चात् चतुष्पादेपदामभिस्वरे सम्पश्यन् पङ्क्तिलोपतिष्ठमानः समो येद्धो न समम्बे विष्टः यमयोश्चन्न समावीर्या निज्ञाति चित्सन्तो न समं वे नीतः आग्नेहम्सन्या अग्निहं वी जन्मध्येष्वा स्वेक्षे सुजव्रता उत्तिष्ठसि स्वाकृतो घृता मोदसे तादृशः समस्तीरन् आहूतो विरोचतेऽन्यो गिरा सु प्रतीकमज्जते घृतेनाग्निः समज्जते मधुप्रतीक आहूतः सो रामानो विभावसुरामानः समिध्यसे देवेभ्यो हव्यवाहन अम्बाहवन्तमर्थाः म् मर्ता अमर्त्यम् घृतेनाग्निम् स पर्यत अदाभ्यम् गृहपादिम् अदाभ्येन सोदिषाग्ने लक्षस्वन्दाः गोकालस्य दीदिः स त्वमग्ने प्रतीकेन प्रत्योषया धान्याः वुरुक्षयेषु दीर्घात् तन्त्वा येर्भिरो समीधिरे जलेष्ठम् मानुषेजने वा इति मे मनोगामस्वम् सविजामिति गुहेत्सोमस्या पामिति प्रभातायवदोदमुन्मा भीतायम् सदा गुहेत्सोमस्या पामिति उन्मापीतायम् सरसमश्वायि वासवा कुमेत्सोमस्या पामिति उमापतिरस्थितभाश्रावमिव प्रियम् कुवेत् सोमस्या पामिति अहम् नष्टेव बन्धुरम् पर्यचामि हृदापतिम् कुमेत्सोमस्या पामिति महिमे अक्षिमच्छनाच्छाम् स्वपदम् च दृष्टया कुवित् सोमस्य पामिति उभे अन्यम् पक्षम् चलप्रति कुवित् सोमस्य पामिति अभिद्याम् महिनभुवमभी भीमाम् पृथिवीम् महीम् कुवित् सोमस्य पामिति न्दाहम् पृथिवीमिमाम् निदानीहमेहवा कुवेत् स्वामस्यापामिति वोढवित् पृथिवीमहम् जङ्घनाः नीहमेहवा कुवेत् स्वामस्यापामिति जिविमे अन्यः पक्षो बोधो अन्यमाचीकृषम् कुवेत् स्वामस्यापामिति अहमस्ति महामहोऽभिरव्यमुदीषितः कुवित् सोमस्य वाविति गृहो कृतो देवेभ्यो व्यवहनः कुवित् सोमस्य वाविति द्रह्मभितयमनाः ओ हरिः ओ ेषु ज्येष्टम् यतो यज्ञो जज्ञानोदयम् विश्वे मदन्त्य सा भूर्योजाश्रत्रदासायभियसंदधाति अव्यनच्चव्यनच्च त्यसन्देहेन पन्तप्रभृदामदेषु क्रतुमपि वृञ्जन् दिवि स्वेर्जर्य देतेर्तिर्भवन्त्युमाः स्वादो स्वादीयः स्वाधुना सृजासमधः स मधुमधूनाभियो इति सिद्धि प्राधनाजयन्तम् मदे मदे अनुमदन् दिवि ोदी यो धृष्णा स्थिरवाद न स्वात्मादभ्या दुधाना दुदेवाः मया वयम् दा सद्महे निभूदी युधेन्याः निभूदि रोदयामिता युधावचोभिः सन्देसि ब्रह्म नापजांसि आदर्शते सवसा सप्तदानोन्प्रसाक्षते प्रतिमाणानि भूरिव रंवरम् जयस्मिन्नाविधारो आमादरा स्थापयसे जिघत्नो अतनो षिकर्वराबुरो ब्रह्म बृहद्दीवो विभक्तीन्द्राय सूषमग्र्यस्वर्गा महोगोत्रस्य क्षयति स्वराजोधुरश्च विश्वा अमृणोदप स्वा महान् बृहद्दीवोऽ सर्वा वोच स्वाम् धर्वामिन्द्रमेव सदा रोमातरिभरे च समासा वद्धयन्ति च हिरण्यगर्भस्समवर्तताग्ने भूतस्य जातः प्रतिरेक सदा न पृथिवीम् जामुदेमाम् कस्मै देवाय हमिम यथात्मनाभरदा यस्य विश्वा उपासा ते प्रशिषम् यस्य देवाः यस्य छायामृतम् यस्य मृत्यः कस्मै देवाय हमिषा विधेम यः प्रा रतो निमिषतो महि त्वयि जगतो बभूव ैषे अस्य द्विपदश्च दुःपदः कस्मै देवाय हमिषा विधेम यस्येमे हिमवन्तोमयुत्वा यस्य समुद्रम् रसयासाहुः यस्येमाः प्रतिघो यस्य बाहू कस्मै देवाय हमिषा विधेम देवा। येनो लुग्रा पृथिवी च दृढा येन स्वभितम् येन नागाः यो अन्तरिक्षेर चाभिमानः कस्मै देवाय हिषाम यम् ग्रन्थसी अवसादस्तभाने अब अब्धेक्षेता सारे जयमाने नक्षत्राधितो रदीतो विभाजिकस्मै देवाय हविषा विधेम आपो गेत्रे रजीर्विस्वयम् गर्भम् दधा न जनयन्तीरग्निम् रतो देवानाम् समावर्तता सुरे गस्मै देवाय हविषा विधेम यश्चितापो महिलापर्यवश्चम् दधा न जनयन्तीर्यज्ञाम् यो देवेष्वधि देवयभासीत् तस्मै देवाय हविषा विधेम मानोसे च निदाय पृथिव्याजो आदिवम् सत्यधर्माजान यश्चापश्चन्द्राहती प्रजा न कस्मै देवाजारविषा विधेम प्रजापदेनपदे नान्यन्यो विश्वा जातानि परिता बभूव यत्रा चित्रमाघसम् गृणीषे वामम् सेवमतीति मद्विषेण्यम् सरासते सुहृधो विश्वधाय सोऽग्निर्होदा गृहमति सुवीर्यम् विधानाग्ने प्रतिहर्यमेव चो विश्वानि विद्वान् वयुरानि सुक्रतो कृतान्यब्रह्माने घातुमेराय तव देवायनयन्न सप्तधामानि पर्यन्नमर्त्योदासद्दातुजे सुकृते वामहस्व वीरेण नयिनाग्ने स्वाभुवाय स्थानस्वभिघातम् जूषस्व यज्ञस्य हेतम् प्रथमम् पुरोहीतम् हविष्मन्तजीलते सप्तवाजिरम् शृण्वन्तमग्निम् कृतमिष्ठमुक्षणम् अनन्तम् एवम् प्रेषते सुवीर्यम् त्वम् दूरप्रथमो वदे न्यस्तभूयमानो अमृतायवत्स्व जयन्मरुतो दासुषो गृहे त्वाम् सोमे भृग भो विरुजुः इरम् तुगम् सुगराम् विश्वधाय संयज्ञप्रिये माराय सुक्रतो अग्ने घृतस्नस्त्रघृतानियेद्यद्भक्तिर्यज्ञम् परियन् सुक्रतो यसे विदस्यापुषसोऽनायजन्त मानुषा त्वाम् देवामागयाय्याय वाज्यमग्ने नृजन्तो अध्वरे निर्वापसिष्ठामन्दवाजिनम् गृह्णन्तो अग्ने विदशेषु मेधसा राजस्पो रं जानेषु धालयूयम् वात स्वस्ति विस्तः अयम् वेनश्चोदय कृष्णीगर्भायो निर्जराजोदज सोऽमाने इमवाम् सङ्गमे सोऽशिषण् समुद्राधो न भोजा पृष्टम् हर्यदस्य दर्शि यतस्य नावधि पृष्टविभ्रात् समानम् योनिवभ्यानोषतव्रा समानम् भूरिरविवावसानास्तिष्टम् वत्सस्य मातरस्तनीराः मृगस्य दानवधि चक्रमारा लिखन्तु मध्वो अमृतस्य राधीः जानन्दो रूपमापन्त विप्रा मृगस्य घोरम् महिरस्य हिग्मन् हृदन्तोरिो वस्तर्भिदद्गन्धर्व अमृताम अप्सराणायो राभक्ति परमे व्यो मन्दरप्रियस्य यो न प्रियः सन्ति हिरण्यजेतनः नागेरुवर्णमुपयत्वदन्तम् गृगावेन अभ्युरक्षा हिरण्यपक्षम् वरुणस्य दूतम् यमस्य यो नौ शगुणम् भूरन्यम् प्रत्यं धर्वधिनाकेऽस्ताद्विभ्राजस्यायूहानि वसा नृकम् स्वानजनप्रियाणि मुद्रमभियजिगा शिवः सङ्ग्रथस्य रक्षसामिधन् मन् लसुक्रेण सौशकालस्त्रिरे चक्रेण अग्नमुपयज्ञमे हि पञ्च रामम् द्रुवृतम् सप्तदन्तुम् असोहव्यवादुदनः पुरोराज्योगेव दीर्घम् तमासयिष्टाः देवादेव प्रसदायन् प्रपस्यानो अमृतत्वमेमि श्रम् तमसि भोजामि स्वार्थख्यादराणीम् नाभिमेमि पश्यन्नस्याया हृतस्य रामभिमिमे गुरूणि शंसामि ब्रे असूरायदेवामृगिया जघियम् भागमेमि ी समा अगरमन्तरस्मिन्निन्द्रम् वृणानः पितरम् जरामि अग्निस्व मावलो नस्तेच्च वन्दे वर्यावद्वाक्रमद माम् ज्ञायन् निर्माया भुत्वे असूरा अभूवन् च मा ृतेन राजन् नरेदम् विविञ्जन् मम राष्ट्रस्याधीवन्यमेहि इदम् सरिदमिदासभामयम् प्रकाशमुर्वा अन्तरिक्षनामभृत्रम् निरेयी सोमहमिष्पासन्तम् हमिषा यजाम कविः कलितादिविरूपमासजलप्रभूदेव रोमि नेयते क्षेमम् गृह्वाना जनायो न चिन्तावस्तास्य परिभ्रज तास्य ज्येष्ठामिन्द्रियम् राजन्ते तायीमाक्षे रिष्वया मदन्तीः तायीम् विसो न राजानम् वृणानापि भत्सु ीभत्सूनाम् सयुजम् हंसमारुरपाम् दिव्यानाम् सख्येतरम् तम् अनष्टुमानोजनचूर्यमानमेन्द्रण्यशैक्य क्रमयो मनीषा अलम् रुद्रेभिर्वसो वैहि। अहम् निद्रावरो नोभाभि्यहमिन्द्राज्ञी अहमस्वि नोहानसम् विभर्म्यहम् द्रष्टारमुतभूषणम्भम् अगम् दधाभिद्रवीरम् हविष्पदे सुप्राव्ये ये च मानाय सम्पदे अहम् राष्ट्री सङ्गमदेवसो नाञ्चे प्रसमदिज्ञानाम् ताम् मा देवाव्यदतः पुरुत्रा भूरिच्छात्राम् भूर्या वेशयन्ती मया सोऽवत्ययो विपश्य तियः प्राणीति अमन्तभोमान्तृति श्रोतश्रद्धिवन्ते वदामि केव स्वयमिदम् वदामि दुष्टम् देवेभिरुतमानुषेभिः कामयेतन्तमुक्रम् क्रीणोमिदम् ब्रह्माणन्तमिषिन्तम् सुमेधा अहम् रुद्रा यथव्रात नो मि ब्रह्मद्विषये सरमे हन्तु अहम् जनाय समदम् कृणो जहम् जावा पृथिवी आविवेश अहम् दूरे पितरामस्य मूर्धन्मयो निरप्स्वा अन्तः सूत्रे ततोऽपि दृष्टे भुवनानुविश्व्याम् अहमेव वाता प्रवारभमाना भुवानानि विश्वा परो जिवरजेना पृथिव्यै अवधे महिलासम्बभूव न लवम् गोलदोदितम् देवासो अष्टमद्यम्ो नयम् तिवरो नो अद्विषाः अधिपयम् ऋणीमहे वरो नेत्रार्यमन् येनानिरङ्गासो यूयम् पाचनेता च मध्यमदिद्विषाः तेनूनम् नम्नो यमोजेवरो नो मित्रोऽजवा न जिष्ठा वुनो नेषपरिष्ठा पुनः पर परिण्यदिद्विषाः यूयम् यस्वम् परीपाचवरो नो मित्रोऽजवा युष्माकम् सर्वा नििये स्यामसुप्रणीतयो विद्विषाः आदित्यासो अधिश्रितो वरो नो मित्रोऽजमा उग्रम् मरुद्धीरुद्रम्भु भे मेन्द्रमग्निम् स्वये दिद्विषाः नेतारभूषणस्तिरो वरो नो मित्रोऽजमा ुलिता राजानश्चर्षणीनामदिद्विषा सुरमस्मभ्यामूतये वरो नो वित्रो ह्यमा शर्मा यच्छन्दु सप्रसा आदित्या सो यदि माहे अदिद्विषा यथा हत्यद्वसमो गौर्यम् यत् अलिषिता मुञ्जताय ेवोऽश्वा अस्मन्मन्दताव्यम्हप्रतार्यज्ञे प्रहरणायुः तादेव्याख्यदाय दीपोरुत्रा देव्याक्षभिः विश्वा अधिश्रियोधित ओर्म निवतो देव्यो ज्योतिरा बाधते तमाह निरस्वका नमस्कृतोषतम् देव्यायती अपेदोहासते तमाह सा नो अद्य यस्या भजम् निरेयामन्नक्ष्महि वृक्षेण वा सतिम् वजाः विग्रामाः सो अविक्षधनि भद्वन्तो निपक्षिणाः निश्च्येनासत्सिरर्थिनाः यावया भृत्या अमृकम् यवयस्तेन वोर्ण्ये अथा रत्सुतला भव उपपापेऽपि सप्तमः व्यक्तमस्थित पुनरिणेव यातय उपदे कालिवाकालम् ऋणेष्व दूहित रात्रिस्त्वमन्न आरात्रि इतरः प्रायुधामाभिः दिवः सताम् त्रिभिहदेष्टेषम् वर्तते तमाह ये ते रात्रि ऋक्षो युक्तासो न भजर्नव अशीतिः सन्ध्रष्टा बुतो ते सप्तसप्तीः रात्रीम् प्रपद्ये जननीम् सर्वभूतनिवेशानि भद्राम् भगवतीम् कृष्णाम् विश्वस्य जगतो निशाम् संवेशनीम् संयमिनीम् ग्रहणक्षत्रमालिनीम् प्रपन्नोऽहम् शिवाम् रात्रीम् भद्रे पारमसीमा हि भद्रे पारमसीमक्योन्नमः ोष्यामि प्रयतो देवीम् शरण्याम् बह्नप्रिया सहस्रसंहिताम् दुर्गाम् जातवेदसे सुमवामसोमम् सान्त्यर्थम् दद्विजादीना ऋषिभिस्तो ममाश्रिता ऋग्वेदे त्वम् मम त्वन्नाराधीयतो निदातिवेद ये त्वाम् देवि प्रपद्यन्ति ब्राह्मणाः व्यवहार अविद्या बहुविद्यावासनः परिषदति दुर्गाणि विश्वा ये अग्निवर्णाम् शुभाम् सोम्याम् केर्त्रयिष्यन् जयेद्बीजाः त्वाम् सारयति दुर्गादिनामेव सिन्धुम् दुविदाजग्निः दुर्गेषु विषमे घोरे सङ्ग्रामे ऋपु सङ्कटे अग्निचोरनिवारे च दुष्टग्रहनिवारे दुष्टग्रहनिवारिण्योन्नमः दुर्गेषु विषमेषु त्वम् सङ्ग्रामेषु वनेषु च मोहयित्वा प्रपद्यन्ते तेषाम् मे अभयम् कुरु तेषाम् मे अभयम् कुर्वोन्नमः ेषिनीम् सर्वभूतानाम् पञ्चमीति च नाम च सा माम् समानिशा देवी सर्वदा परिरक्ष सर्वदा परिरक्षत्वोन्नमः अग्निवर्णाम् तपसाज्जलन्तीम् वैरीरोचनीम् कर्मफलेषु दृष्टा दुर्गाम् देवी दुर्गा दुर्गेषु स्थानेषु सन्नो देवीरधिष्ठाये यमम् दुर्गाः सभम् पुण्यम् रात्रौ रात्रौ सदा पठे रात्रिकुशिलसौ भरो रात्रिर्वा भारद्वाजी रात्रिस्तवो गायत्री रात्री सूक्तम् जने निर्जम् लोकजातम् त्रिसुलोका जातम् जयीश्वराः तमुत कोका जातुम् सुपर्णयातमुत गृध्रा जातुम् नृधे एव प्रमृण रक्षा इन्द्रा विसङ्गा भ्रष्टिमाम् वृणम् रक्षो निबर्हया शिवस्य त्वा जराजो नासादे ृतहृदो हि नोधि योग्यर्ददातु भेषजम् शीतहृदो हि नोधि योग्यर्ददातु भेषजम् अन्तिकामग्निवाजनजदूर्वादस्सु सुगामत् अजातपुत्रभक्षाया हृदजम् ममा दूयते त्रिपुलम्भम् बह्वाका संसराजातवेदः कामाय माञ्च रक्षपुत्राम् शरणमभूतव लिङ्गाक्षलोहिरग् कृष्णवन्दनमोऽस्तु ते अस्मान् निवर्गदस्येनाम् सागरस्योर्मयोजयसा इन्द्रः क्षक्रन्दः सुवरुणमभिषिन्दतु सत्र भो निधनम् शान्तु जयत्वम् ब्रह्म तेजसा अपिल चटीम् सर्वभक्षम् चाज्ञम् प्रत्यक्ष दैवतम् वरुणम् तपसाम् जग्रे मम पुत्राम् स रक्षतु मम पुत्राम् स रक्षत्व साग्रम् वर्षसरणम् देव विवहाद यावदादित्यस्तपदि यावद् राजति चन्द्रामा यावद्वायुप्लवायति तावज्जीवजराजया येन केन प्रकारेण कोहिनामनुजीवति परेणामुपाकारार्थम् यज्जीवति स जीवति एताम् वैशरीम् सर्वरे नमोऽस्तुते न चोरभयम् न च सर्पभयम् न च व्याघ्रभयम् न च मृत्युभयम् यस्या मृत्युर्न च मृत्यः सर्वम् लभते सर्वम् जयते ममाग्ने विभवेश्वस्तु भयम् प्रेन् धानाः सन्धम् मह्यम् नमन्ताम् प्रतिशतस्रस्त्वजाध्यक्षेण वृथा नाजयेम ममा देवावी हवेसन् तु सर्वयिन्द्रावन्तो मरुतो विष्टो रग्निः ममान्तरिक्षमुरुलोगमस्तु मह्यम् वादः पवताम् कामे अस्मिन् मयि देवाद्रवी न मायजन्ताम् मयि रारस्तु मयि देवहूरिः देव्याहोता रामनुबन्धपूर्वेरिष्टा स्याम तन्वाः सुवीराः मह्यम् यजन्तु मम जानीहव्याकोजः सत्यामना सोमे अस्तु ेनो माणिकाम् गतमच्छ नाहम् विश्वेदेवासो अधीवोचता नः दे वीषनुर्मेणः कृणोत विश्वेदेवासयुगवीरयग्मम् माहास्महि प्रजरातनो सो सोमराजन् अग्नेरञ्जम् राजिरुदन् वरे शामदब्धो गोपाः परीपाहि नस्त्वम् रजम् चोयम् त्वलुनः पुनः चित्तं प्रभुदां प्रभुधाम्ये सत् धाता धातॄणाम् भुवनस्य यस्पतिर्देवम् त्रातारामभिमातिशाहम् इमम् यज्ञमस्विनो भागृहस्पतिर्देवाः पान्तु जमानम् न्यर्थान् रुक्षो महितः शर्म यम् तदस्मिन् भवे पुरुहूतः पुरुक्षो सरप्रराजीहर्य स्वमृयेन्द्रमाणो रीर्गोमापरादाः येन सपत्नाः पदे भवन्तिग्निभ्यामवादामहेता वो रुद्रादित्या वोपरिस्पृशम्भोग्रम् चेत् तारमकारमक्रन्